त्याह रक्षामहत्ये अग्नेभ्यपामेत्याहमे समग्रे उमारं समेवाभ्यक्तय असजो असमभृतम् अभुवान् असौमेजुः अन्तरिक्षमपभृत ध्रुवायि लोका सुवाजनानि प्रत्युवा इमान् लोकाम् कल्पयते समे सन्ते समे सन्ते अमे लोका प्रजयाम् देदा श्रीकामय लवर्णकः पर्यन्यचारे कृतः प्रत्यमे वयच्छते अवाचीनाग्राः श्रीभागरे तद्वादयवायत्साकल्पदे अथवा कामालये स्थलः दक्षिणहत्तः उपद्रष्टव्यः म् संवाद्यधाने सदोवेन भूत्वा आत्मानम् भविष्य बाह्यदत्तनवकम् सुभयते सत्पाणपानो भूत्वा आत्माननौ प्राणपानौ हव्यद्रुवप्राणपाणाभ्यानम् भवते क्षेदम् वेद शिवश्यन् अमादरम् केन वयम् सहस्रपुरुषेन यत्त्वा हेमत्वसम्मार्जनान्यज्ञानुग्रहालयेदधाः त्वमेव विमानम् जायस्य हनस्तभत्या हानुष्ठत् प्रजापलिः आचावत्यो वेदः हेनस्याग्रग्रस्त्वत्सम्मार्जनानि चेनादेवनः सैवान् आरब्धस्य यज्ञैनाय वधवाधिकयोः एता प्रतिष्ठान् देवान्धेभारन्तम् चेण प्रतिष्ठा देवेनाथले प्रजयावस यजमानः एतद्रूपम् यत्र कम्मार्जनानि पशूनाम् भवते यच्चेतान्यत्रा ेषाम् प्रियः शामत्रया वैणवभावनाम् कावत्रयपशूनाम् भवते यत्रेतान्यज्ञो प्रहरन्ते तस्मादैतान्यज्ञादयवप्रहरेण यदत्यम् त्वम् रज्जाय पुशोनाम् प्रत्यये किमभूतानामधिपतेः सुद्रम् यमावशाः पुसूनस्माकम् माधिपुम्भेः हेदन्तः शिवः सप्रजाप्रजा एम्बरमेवाजः प्रजानाम् प्रजननाय यच्छन्ते सन्नक्ष्येता यम् ध्यायगौ आदेनादन्नक्ष्यते आदेनाश्येदा वेत्यम् करोगे यत्पश्चात्ता चन्द्रा अनया समदम् दधेता हेवानाम् पक्षया समदम् दधेत हेताः पक्षिमौरे चन्द्रास्ते त्याहे कृत्वादाश्चैवम् च दयत्सना स्वयते चमङ्गाश्च क्षेमःक्षेमस्य वृत्ते विद्याकालिने आशुरमध्ये ग्रन्थे गर्नादे आदिर्याम् परिबृह्णादि ग्रन्थे प्रेमत्रे अन्विधनम् त्याहमेकन्विधमेकलोके श्चिमानम् व्याजस्य सप्त क्षीयमाणस्य यन्त्रमादिदेव विद्याया इत्याः आदरमे मथिलप्रजाभजलादेवजनाः षष्ठान् मुखिलप्रजलनयश्चे सस्थान् मथुरा न प्रचलन्ति कादयामधे आर्येण प्रचलन्ति यज्ञो वा आज्ञम् यज्ञेनैव यज्ञम् प्रज सङ्कयामयावत्त्वाय हत्यमे रेक्षतेय प्रजाः यद्दैवते यज्ञस्य खलोदे स्मनन्तरे हसोपत्यया एव यज्ञस्याम् वानमिच्छस्ये हेज्ञम् वा एतत्कलो हत्यवेक्षते पार्घवत्यभिषयाध्यत्वाय त्यैत्वा वित्रयः श्रत्राणा शुक्रमुदयशौत्याः लोकमे वाच्चैतन्मेषाम् लोकमेवामेतध्वनिनन्दे अभिमा उताम् च जलम् वि ेवनेतान्दशात्सय स्वमिषमत्त्वाय सावित्रियच कवितत्प्रसोकम् न कर्मा भविष्ये य प्रयानम् सुक्रन्तायाम्भक्ताय हर्यावाद्यानन्तरायाय हे बाहुरासंयत्सादन्यस्यावकाशमश्च तेन वैदेक्षता सो देवाह्ण्यफलाः च एवम् विद्वा नाज्यमनेक्षते भवत्यात्मनाः फलाः भवते अनुभवादिना वदन्ते शि राज्ये नान्यस्य पिभारयते हरेनाद्ये सत्येन च सर्वे सत्यम् सत्येनैवेन परिभावयते न्द्रागम् दिवाहराज्यम् चन्द्रागस्यैव प्रेणादे ग्रन्थालयेदप्रसलः सुन्धे अष्टावे हष्टाक्षरागायत्रे गायत्रप्राणः कायमेव पशुदसायेणप्रसमः खादुले वक्तोन् सोज गन्धीराय हस्ता गृह्णम् कनीयः यजमानायैवये स्थः सज्जक्वान् ग्रन्हाले सप्ता सत्पले हस्तानुभे सप्तादष्टासतायाः हस्ता सप्तना द्वामनसक्त त्रैभ्यप्रजय रमोर्जन्धे यद्यक्वान् ग्रन्हाय प्रजाय भ्यस्तने यद्भुजे प्रजानोराजय ध्यस्तने सर्वत्रैव एतत् जज्ञाने लक्ष्यने आपो यजन्नयन्द्रे हर्गे यज्ञमानिन्द्रो गणेशेन्द्रोच्छाः तत्र आपोहेन्द्रम् वद ज्ञाने लक्षिताः प्रेणा प्रिताः अज्ञेलाय कृष्णस्पते कृष्णेत्याः अग्ने दैव अग्ने रेव त्याः प्रजा वै बलिः पृथिवे प्रजा एव पृथव्याम् प्रजा वै बलिः यजमानस्तुजः यजमान एव प्रजापयते स्वान्तरिक्षायुचर्य प्राप्तये च प्राप्तले अधो गताः तव जयः वदताः सत्यं ब्रह्मं वच्यत्रये तयाभिरे वदे तदासो ते कालः अपरकाज्यन्ते तादगैवतते सुधाद्रज्ञेणिक्षाः सुधाकानो हिदनां गुणगोवै हि नृपेषु क्रियायेश्वरोऽत्र स्थिरणै विवञ्ज्यते आघावै गदौवै वेदना महासा नमोतेनादे महाभावागोतेन वतेमते न्दवर्जन्या वर्तते यत्र ओर्जा शिवे धिर्यादेवोर्जन् दधा सत्माः पृथिव्यावोर्जापुञ्जने ग्रन्थ्यम् यत्र गुन्दयदे अजनेत्रैवोषम् प्रत्यम् समायच्छते सप्ताः रागेण तो यज्ञादेव यज्ञप्रभृत्यये प्रस्थलम् ग्रन्थालये करोति ष्यन्तम् ग्रन्थालये प्रजावचनादित्यमुखेण संमितम् यन्दम् ग्रन्थालये यज्ञवरुषा संवितम् यन्दम् ग्रन्थालये शेतावद्वेयम् येजसंमितम् हबलम् ग्रन्थाले हवलङ्गस्यावरुध्ये सत्यन् पवित्रे अपि सजते शिरमानोमे प्रस्थनः प्राणापानो पवित्रेण प्राणापानोधामेत्याः साज रैवेतर स्वात्थम् जैवेत्याः शिवेभ्यं चेत् कुशलेन ये प्रजामेव कुशर्याम् प्रतिष्ठादेवरणदृष्ट्यव्यस्तनादे तदयेन गणोदे धायम् प्रस्तनम् परिषेयम् परिधाते हिमानोत्तरः यजमान एव तत् स्वयम् परिधेमिन्वधाते सम्सर्वादिविश्वापरित्याः इष्टमेवादि यजमानेन धागे इन्द्रस्य मापुरसिलक्षिणीत्याः इन्द्रियमेव यजमानेन धाले नित्यावरणोक्तो नित्याः प्राणापानौ निद्रावरणौर्यः रक्षाभित्याः अपरिमिताम् दादे हेजवैत्याः बहवक्त्रेण समर्थ्यते किमन्तरम् समिधे महेत्याः समिध्ये त्याः देवत्याः असोलेः अन्तरिक्षमगे धुव े केशान् प्रभृत्यभागेत्याः सत्याम् देतुभृदस्य भागः सत्यदेवेना प्रभदस्य भाग्य सा देवे सा विष्मा बाह्येत्याः यज्ञादेव स्मः यज्ञे आवेजम् गाहेत्यम् बाहिना एन्याय जमानाया तए ते देवा समाधा सेना आके कंतिनार्योत्रा ते महाहुरण खेवन ककया सुनिस्वनाया नुधुरे च अभ्राद्रियासु होते तेरोनिन्द्रनितालोनि पन्ते तेरोनिन्द्रसुवे बोलोसा पुरच्छाके पन्द्रजं सदारवण्यं स्याद साके त्वं वत्रेन्द्रेन्देभ्ये फलिके वक्त्रेनादे जयमाले कालावत्याः कालावत्य प्राणः जयमानाहवरीयः श्रमाण एव प्राणन्दे सर्वे प्रयोवेत्पाणाः प्राजापत्यवाक्यो वेत् प्रजापतिः शक्यमेव प्रजापतिम्भे प्रजापतिः सर्वा देवताराः सर्वा एव देवताः प्रेनादे अग्निमघ्ने श्रम् लढेत्याह स्वाहस्वादत् मास्ते स्वर्गच्छ यथा न वार्धम् वा इन्द्याहन्त्याः प्रसवः यज्ञा वे भुवनम् शैत्य एव यजमानम् हृदयाप्रसेदे अर्जयत्रविदन्नमयित्याः हर्जवे देवानाव्यक्ताः च एव देवानाव्यक्ताः तत्मायैव नमः करोदे कृष्ण यज्ञत्वारस्ताद् कृष्णयज्ञपश्चात् साभ्यानैवत्याख्यामजे त्याः एकः देवानामपराजितमायतनम् चेवाः इन्द्रियमे वर्षमाने प्रदे समारभ्य उद्वारद्वरा विस्कृतयुत्याः बुद्धेः कार्यमारभ्य एतस्मिन् काले देवास्तु वर्गम् शोकमायम् साक्षादेव यजमानस्तु वर्गम् शाकमे वर्गम् शाकमेत्याः नामाख्ये इन्द्राभाः इन्द्रियमेव यजमानेन सा बृहत्सा नित्याः स्वर्गोलय लोको बृहत्साः स्वर्गस्य लोकप्रवचे हिमानदेवस्याः सादेवस्य भुज प्राणाः यत्सज्ञपरिचय साद्याश्च प्राणन्दध्याय अशब्जपरिचयम् नत्याः क्रामये हजमान एव प्राणन्दये पालिमाः जैनुच्चरिता मातुर्यभयत्याः य शिरवायज्ञाकारः आत्माम् दृढ आधारमासाल्युवाकम् समरक्ष्य ेणौ श्रीअलये प्राणाः स्वर्गस्य लोकस्यानित्याे नित्यन्ते यद्ब्रह्मार्यः यः सा निरन्तरे यानजमानस्य प्राणान् सङ्कर्षेण प्रमाणिपत्याः यजमाना एव प्राणान् सङ्कर्षते न प्रमाणिकवते प्रहक्ताः प्रत्यङ्गादीनः पिरायायि रामानुभागे प्रसवः प्रसवः पुरुषः पशुश्च प्रशवम् प्रतिष्ठापयते विधायवायका प्रजाते आङ्गाय निजमानामप्रजाय चिरम् गुरामणस्य पर्वमानप्रे सविदभ्य नाजे े सकदधिकायित्सम्पे सत्त्वारिवक्ते मुखनिवक्प्रेणानेव वसोनुवक्तन्ध्याः यजमानेन वक्ते इदाये देवतानाम् हरेम् वेदामिलामानुधायत्ताभागेयन्वयते प्राणाकुन्ता वाचम् चैव प्राणायक्षावन्ते अथमादेशमानन्द्रवन् हरिन्ना निर्वक्ष्यामेत्यम् प्रवेणया भागयानुवक्षते निकप्रवेण रामभाष्यामेति पुरानुच्याः नाम भागायाज्या वैष्यामेति याज्याः नमया भागेन भरक्षते भागम् निधाय पुरोदे करोदे करो श्रद्धागे तपः कारेण एव केन एव सत्यस्य ब्रह्मा होतारं भर्यते कं युज्यते यं ब्रह्मा यं होतारं तिरमद्वर्योः तिरमग्नै दैत्यं तदेव अल्पं येह परः आद्योक्तजालकनां इयं देहः कार्येवसे अग्निते समायार्धदि भञ्जुका कृतेह अज्ञौ कार्माणविद्वारे सगे षड्वाहनेव ैव्यालक्षणानि युञ्जने यज्ञश्च प्रदक्षस्य अग्निमज्ञे स्वगृत्यरक्तम् नज्ञः जाहोदालेत्याः प्रचार मार्ग प्रोक्षवाय प्रोक्ता द्रोहेत्याः आदुरमेवे नामागारात् प्रकाशे व्याहोदभैत्याः ये प्रकारभवे सत्यन्मार्गत्याः आदुरमेवे नामागारासञ्जा्रोहेत्याः संयमेव वागः प्रत्यम् वागदे समर्थये अतस्वक्ष्म्याम् पालोदेभ्याम् प्रतिष्ठावानक्षे अन्नम् वाचः प्रगच्छावृध्ये साजेयम् ज्यो मोहले जाता एव भ्रानुल्यान् प्रोदे प्रदेशे रक्ष्यमाणामेव प्रचलोज एवाच्य भवद्धा यजमानः अस्मिन् लागस्तरे लोकात् कुलः हिमानत्वे प्रधानक्ये प्रोकाः चेच्छ ेव्याः दृष्टः स्वर्गम् वाकण्त्याः प्रवोषयैत्याः आपदयते हरदाहृदयश्चिमेवाबन्धे यावद्वाहद्वर्यप्रदे कामरस्याय हर्ये वादेत्याः आर्यमेवात्मन्ध त्याः चक्षुरेवम् फलानेत्याह नुकारम् करोति च जय कृषभज्याः यज्ञः वैदेयम् कहते यज्ञ कृषवित्रयजे एव प्राण्योजे सर्गत्राभागाश्चे रुद्राः सर्गप्राभागाः हायं प्रेणादे जाः शत्रभवजे इन्द्रियम् वै सप्त इन्द्रियमेव यजमाने रुधाजे सुन्नमे अग्न देश पाहि मादित्याः अतिरिक्तानि वायुध्वनम् वृत्नानि अतिरिक्तास्थले करणाः अतिरिक्तमाज्याख्यगरणम् अतिरिक्तम् दृढाले अलोहित नैवहितं महात्मन विजयं तेन तेन चोलिनायां तं तेन नामभिन्नां तेन नमेतु कृपयै तारकप्रसेव दिगे मार्तिनाय ब्रह्मविराट शिववनेvndह तदवैष्णवनादि विश्वनायकस्य दत्ताः तवमब्रह्मणो वेदे नमेतुं मार्त्रेक्के अवयत्त्रेष्टयेष्टयेश्वरदा ्रह्मकारे त्याः ज्वज्ञं वयुङ्कयते मातां वयुङ्केवालित्वां वयुञ्ज हृदयम् प्रतिष्ठापयते हृदय प्रलया मधुर्यमानः शोभायथा देवं यज्ञो वजने हा देवता भवतेत्याहीनायभाभ्यावृचने तृतीयान् भवने स्थानम्भवीत्याः अग्रमे भागा पुण्यकर्मशोधस्य भागः अग्रयवेलानाम् भागः पुण्यकर्म शोधस्य भागे भावे स्वलम् करोमित्याह आत्मनः वेदामासाः पूर्णपाक्षाः ब्द एतच्छन्धम् एव लोके पुरक्षरे एतस्मार्थेमानस्थलम् परिहरे एतत् किञ्चिन् प्रजा एब्रह्मा विद्युदय ब्रह्मणावेदस्य विमोकः अध्यक्षान्ते शैत प्रजान्त प्रजयादिमश्च पूर्णः मुखविवक्षणत्येव लोकम् कृत्वा चित्तते ोद्रान्ते ह्रीं मन्त्रो भगवन्ते हष्टके भाजनं येवे नाम्तोये जेतवा उपदेशः चित्तत्वावज्ञो ब्रह्मागमस्यं रम्यं यजुकेन तामवृक्षेन रक्षणिते तथा आत्मेन अयच्छप्रहाजे चिनमुनुदमोकानां समत्वायत्तनियते निर्बाधेन अरविडां चिन्देन परात्त्रेये चित्तं परावदः राज्ञाभ्य निर्मभ्य तेन ब्रह्म आश्रमणे च आक्षये चन्द्रन्ध्यायेन शत्राय लालिन्यम् शरद्धवैशिष्ट्यम् अमजशोत्रम् समज तपस्करम् आरकायवेधाम् आत्मने आश्रयाय योगो कामाय बुगुश्च अविकृष्टाय मार्गधम् एताय सूतम् चित्ताय भे लोढम् धर्माय सुभागम् धर्माय रथम् शमिष्ठाय भे मलम् कपायकार आनन्दाय स्त्रे सखम् कुमुदे कुमारे पुत्रम् हेशायैर्षकालम् धैर्याय कक्षालम् श्रमाय गोलाम् मायायै कालम् मालम् पूर्वाय मणिकालम् शुभे वमम् श्रव्यायायिषुकालम् कर्मणे नज्याकारम् शिष्टाय लज्यतर्करम् सत्यमेवनितम् आधानम् हलाभे चौपदिम् पवित्राय भेदम् प्रज्ञानाय नक्षत्रदम् शिक्षे दाय फलाय वदाम् सन्नाया मोर्थम् हरेभ्यः पौरम् चिष्टम् पुरुभव्याक्षाय दुर्मम्बात्राभ्यम् अर्पदेवम् अभिलवम् सादयभ्य विजलकालम् शासुधा जनेभ्यः कन्यककालम् उत्सादयभ्यः कुज्रम् प्रमुदेव वानम् स्वप्नायार्धम् अधर्माय बधिरम् आदृक्षाय प्रस्नम् उपदृक्षाया प्रश्नम् मर्यादाय स्वस्य विभागम् प्रत्यये च हृदयम् त्रैरहत्यायम् त्रिविते क्षत्तालम् औगद्रष्टाय सङ्गहेतालम् कलायाचम् भोम् नय परिच्छन्दम् शिलाय प्रियवादिनम् हरिचारस्वम् हे भाय वाय महात्रयम् नेगम् हेव लोकाय प्रहितारम्भु मनुष्य लोकाय प्रचरितारम्भु स्वर्गाय भवताय पादुखम् परिषष्टाय नाकायम् शलाया शलम् बालम् शैलशैलपालम् शैद्यायाजपालम् शिलायम् केलाय सुराकारम् भद्राय गर्भम् श्रेयश्रयम् अध्यक्षायामसत्तारम् अन्यम् शोतायाधिकम्पोलाभम् श्रोधायम् क्षयमाययोम् उपशयमानस्पदम् शीलायान्यकारम् क्षमायासो चेयमसो असर्वभ्योगतो संवत्सराय परियाये परिवर्तनाय विहात्सराय पुस्तरे तत्सराय विरचनाम् सर्वे गणाय नदम् अन्यथान्यायदापकम् सर्वदाभ्याधे वरम् व्यजन्ताभ्यवसाहम् उपस्थापयेभ्यभैन्दम् षट्वराभ्यकौष्करम् सर्वजयाम् पोषणम् प्रसृत्तायाम् घोषाय भगम् हन्ताय बहुपालिनम् हन्ताय मोकम् महदेवेनावाजम् क्रोशाय गुणवद्मम् आस्नन्दाय बुद्ध्याम् अवस्त्राय सद्मम् शिबुध्योजनसन्धायम्भ्यम्बन्नम् भोके वाणिजम् कर्णाय अरण्यकारम् तस्याय ज्ञागम् शिक्षे वाणिनम् य मोहरायम् आनन्दायम् अक्षराजाय लवम् कृताय सभागिनम् शेतायनाम् वापराय इष्टम्कालम् ैव खादम् शत्रत्याम् ध्यान्तम् सर्वदान्तम् पाकम् सम्भेक्षमाणवयन्यैके दक्षिणमानभजय हे एवम् जलम् पायवेक्षाम् दालम् अन्तरिक्षालयम् शान्तिनम् शिलेखालयम् यक्षम, ौर्याय कृदानुभयम् अनुभजय हरि हरितसमर्त्यकुंसलम् हरितृक्लमलिकृष्णम् हरितम् हरिगिरभिनन्दनम् हरिगर्मिनम् ओ सत्यम् प्रपद्ये धृतम् प्रपद्ये हम्पञ्चदशेन वज्रेण क्रामाणिलयम् दः भवद्भुवस्तुवः हेम् प्रभवत्यवः हरित्वन्द्रः अज्ञायादयेतापर्यते अङ्कासमिध्यरङ्गिरः सुरेणकृशस्रहाय्यम् हादेव ज्ञस्त्वमिध्यते अश्वनदे ववाहनः खगुम् हरित्वम् चेदते फिणन्ता वयम् प्रशण्डे विषाहस्तविधेमहे अग्ने अज्ञम् दोरम् विणीमहे होतारम् इष्टवेदनम् हस्तयेत्युक्तम् फलिध्याधरे अज्ञत्वा भटयेभ्यः स्रोधश्चमहे फलित्वा अज्ञाभुजा ष्ठाः श्रेणो यूयम् पादस्तस्य व्यस्तः अग्ने भादुम् अभिभ्राह्मणभारताः तथा ज्ञातः ओमामा ह्रीमामा वः प्रजावदेवा वः भग्नेवामा वः दग्नेवा वः जिन्दवामा वः महेंद्रामा वः सेवानुमा जबानुआ वः खगिमुहोत्काय वः सोमगिरमा नमावः आशानुदेवा नमावः सुदेजादेजा देवाः खगिन्होताले खगिहे ोत्रम् वे कृपया इष्टम् स्म वयम् आसुवे यजमान देवताः विमानस्य स्म हेवायुम् इष्टवाराम् हेनामहे देवायम् ये नमस्याम नमस्याने हिलमयज्ञाने विदवाज्ञाद्यश्चरियन्तु समवानज्ञाद्यश्चाद्यश्चरियन्तु हरिहरचलयन्तु साहाय्यम् साहाय्यम् स्वाहामयम् स्वाहाग्ने गोमौ सहेन्द्राग्ने स्वाहेन्द्रम् स्वाहाहेन्द्रम् स्वाहाय साहाज्योणाः हरिणाद्य चलयन्तो ुक्ल विषाणुराजुंप्पत्तिगुंराज भद्रिख विषाण्वेद जन्म शुभारो भाला वेद तमेव विदधां गच्छयामो स्वविधा मोये कौनारिसा विदा राजत्वा महाराजस्य हविरावेतो यज्ञे मोक्षाय कृतो परे परेपुत्रियायम् अपारुणे पारुणेन वदे भूवायज्ञं करजस्तनेताय एत्रा युज्यते दिवाहि सिंमो तारमदयेन सोऽशान निष्पावनयेन देहे हव्यवाहनम् त्वम् जन्यः शिष्टा जाता इतहितानुभवत्सभुरत्मनि मुखः सद्यामवर्नालेखुसः हविष्वाभवाग्ने स्वमातले गतः सर्वोजेविनः सन्देहत्नाभोतः शिवमेतानि भजनानि रङ्गभेदाय इन्द्राज्ञाञ्च इन्द्रायोजन्दाय इन्द्रा आलो हिन्ता रघवा करहिं ता। होत जीवन नाम बिनस्त होंहिं। हत पदय नाम जगे स्याया। वो पुलस्तवर कर चले भोले। ते प्रेम देवा कुज मान दृष्टा। विद्वानो मजो ग मरु सोय देहा। कहैं एहिं जानि तिरस कै लकै। तुम हो सेनाज जायसा। आयकै जते लगदम अगन अगय तिमा समानि। अजाक्त्वास्य प्रयासामानि अयालज्ञा प्रयासामानि हयामः प्रजापया प्रयासामानि अजालज्ञे त्वामया प्रयासामाणि अयालिन्दाज्ञया प्रयासामानि अयालिन्दस्य प्रयासामानि हयामा हयान्दस्य प्रयासामानि हयामः जलवानामाजमानाः यस्मिन् न वदति न वदति तस्मिन् तक्षत्समविमानं आयततामेन ज्यायसह प्रणामासह वराददगैनं सुरागुमरे हगेलो तेसो अस्त्रस्य होताः तालमजोगेवे कृतुम्हज्ला स्ताययाजुनेना गद्भो अव्यावहे क्षयाते अज्ञा बोधयमस्मि हरणं नहुत्यया यताम् स्वहोदम् रामधैव्यम् सहान्तरिक्षेण स्वमा रामधैव्यम् सहान्तरिक्षेण क्वयदानम् सहोदम् बृहत्सायिना स्वमा बृहत्कारः सप्तभामित्राः क्वयन्ताम् स्वहोदा भेन सभा उपभोतेन मार्गे मेत्राणि ते हे जाध्वर्यमोदामः हे मञ्जौ हे यज्ञाने उपभो जयत्या होषामले हे हे देवपुत्रे उपभोतमानः उत्तरत्याम् देव यज्ञाशामुपहोतः े देवादन्तामेतस्य विष्णवस्य प्रियमपभूतम् कृष्णस्य प्रियस्वापभूतस्याभूतः एवम्बरिः असुमयमस्य वेदो हेमो राजंसः असुमयेन विधेयस्य वेदो हेवाज्ञस्य कविन हृद्रविना मन्दकविः सत्यमन्नाद्राय क्तवाकम् हृद्यात्मोक्तमा उभयस्त्वं यत् सहेत्वा यत् प्रमाय मदे तनैक्केन महान् अभ्यावामि देहि सा संजय धीरनाम हस्तो अपरे देह उरौ युद्धेन भयं क्रमो प्रशज्ज्ञानवारे च भववय अभवः ओषत्सि यत् मयस्मिति तव पदनानाय पदिराणां तयोधावि यज्ञेन गुणमभ्यन्यजनाम हवे वदनमज्ञायोग सौरहि हरिविशदा हवेद न महो अज्ञायोगा अज्ञजम् हरिवृद हवेदनमहो अज्ञायोगता रावम् हरिवदा हवेदनमहो अज्ञायोग अज्ञे स्वालम् हरिवेताम् हरे भेताम् महोयोः प्राम् इन्द्राग्ने इदम् हरिवेताम् हवे भार्यायोः प्राता हिन्द्रगिलम् हरिजना हवेद नमः अध्याय कृता महेन्द्रगिलम् हरि हवे नमः अध्याय कृतान् हवे भसन् नमः अध्यायोः कृता हर्य नमो च हरिहदा हवे वद नमः अध्याय कृता हत्यानुमात्रालयाम् देवमायाम् आशाः चे निजमानवसौ आयुराजाः च पुत्रया स्वाजामस्य माजाः च उत्तर्यामाजाहस्य भोजमाजाहस्य दिव्यम् ध्यामाजास्य विश्वं भाहस्य शयेन हविषाः च तरफ्यात उद्ध्यादे तरफ्य देवारा उन्ताम कर्ट्यद्धे वो येड़ ध्रवनते अयमज्द्धे अग्मानुबारा हाः इस तंचरी बंचा उजेजन अध्यावार बिभी अम्हस्तादाम येड़ वावस्ते बंचा नमो येड़ ज्याः सच्छय देवी देवी <स्था> देवे स्वस्कृतत् पुनः स्वच्छ सञ्जलत्वष्टानुग्रयम् तन्नत्वं हेरानाम्पेलवन्दुनः पुरानन्दनत्व उतज्ञालियन्तदेवपत्नेः इाः यस्य स्वयमुत्पादप च जनानाम् अग्ने अकर्म अश्वन अकार्यत्याविदम् चित्रेण हैतम् उपहोदयम् उपमानसन्तरम् तावधिर्याः क्रयताम् उपहोदम् वामदेशम् सहाञ्चलक्षेण उपमालामदेक्षलम् सः चलक्षेण क्रयताम् उपभोदम् दहक्तः दिनाम् उपमादक्तः दिनाः क्रयताम् बहूतः उपमा भक्तः क्वनाम् उपहो जनधेनुस्तायुगाना उपमाधेनुस्तायुजभा क्वनाम् उपभोजन भक्षस्य उपमा भक्षस्य का न क्वलाम् ीम् उपहोतेपुत्रे उपहोतेङ्ग्राणीवा विधवान् अधिपुत्रान् अत्रत्याेव निर्वेघा हन्नतभूताहोताहोजनम् तिष्ठस्य प्रियस्यामफलेङ्कः फलस्तदेवयस्वक्ले हजयञ्जिः पाठक्षले ओदनपाशनमहोयेसनायै तत्रमपशनमलह कृणेमोर्षां जतरादिमेके तथारेगेनो तुवहा जातवजायेन पुनि अक्षे अन्हा परियावितेन धर्माहा संस्कृतिरा अवतोमनेशा एवयाक्त्रोदिन् खिलातां शिवादुभासा परिदेशानं स्वस्तदा तवनायमाहा यन्ते साध्यमनसाः अग्रे यज्ञवन्तः संवर्णमित्राये होदालयश्वविधामसुर्या कण्ठे नामश्चिवस्य होदर्गिणोदालय सप्तमो नोपानेवो देवेश्वरकन्नम् सन्दृहस्तम् न्द्रे स्वाजस्य महोदय होदायक्षद्वरे स्वरागस्वान् होदायक्षद्वरे स्वाक्षमश्लोको जिताम् विवक्ष्वादिष्कयन्तानाम् यन्तायन्ताम् ृष्टमध्यान्यक्षात्परिवृत्तमन्यभोद्याभवेन दत्ताम् एताप्रभोतृत्वन्वताम् सौढाम् विश्व परब्रह्मणेन सपनहपौ देत्वा श्रेयाे येन वैस्वाज्य च होगि गणाः पदानेन सपनहपौ विमारत्रकन्ति गणाः वक्ताः सधमनीयः सदा कृतेन वनात्नेवा मेदेयज्ञाज्ञा भाते ततः जस्ट टू ऑन द गणाः भवतायकलग्ने गुप्त्वा स्वाहायवेला स्वाहायम् एव देवागमः कृनः तदन्त एवायभ्यायुक्त्वा आया हा चैक्ये अदुरिक्त जोजा उंदे दाना दुदे सहोगा तगे दाने की हितो जीजाएं साधी नंबढ़िक्त पजिशा उजिल्जा अस्चो अस्चा उज्जदे अग्रे अन्हा इस्चा सजेग धरम बढ़िया चेवेर जोजबेर चोड़न विलस्पजी उदिया उ� पुत्रायनाः प्रयन्ते अधित्यम् मनुपालिन अतोरेन्ता विचेरमारो ताचीनं च परिदाचिन्ता आनयि चंभालके दुयमेदलो दिनामस् पदिरेरन्ते त्रिस्रारेण भयेन गच्छो न अपगेत् स्वनरत्तमं तु करिष्ये ज्यावाः दिविने कृणि उपेरेपि गुणजब्नोनानिस्पाः तवजलो देवरियाणि देवं वष्टाद महेच्छरिस्मानि उपावत रत्मन्या दमंचन तेवा नाम पादल भाहे कुम्षे पनस्परिष्यमिता देवो अग्यें सब्स्परिष्यम मुदुना घुजेना अज्यो शातो चिमिने देख्यम अग्ये देवाना हवात्तु रोगा हा अच्य हो रुप्रित दस्य भाजे वावा देवं नव्यं हि चिहः अवेष्ट्य धर्मं चाचच्ये देवं आदमे स्वप्रगते हरे मारदने कभे अञ्जेन होचामि त्वं तथा तथा नतुजेव श्रीरचिनं अदपद्न्ये तव लेन्योऽत्र ज्ञवाः पाणिजोतिं पालहा तेना वितत्पमरणहा यज्ञस्य पुरन्म्य महाेश्वरा भव्या जय नब्धा नैदा स्वयम् बुद्धनिस्सारवत्मान् वरेण मे ज्ञात्वा आज्ञा नम्रित्था मेघं तस्माकं प्रणमन् तनैव तके अन्वेनं मादान्यदा अदविषा अनब्धान असर्गता अदभकारोत्स्य जय जय मागुणस्तव बलसत्तारे परिनाम्तसो जंयनाय नमः पादं पादं नमवदनाय नमः विषदस्त्रास्त्रं युं खंकरे खवसं युं वशेनो शरीरेण यकसारस्य तनाक्षरान् कुरान हाजः विश्व महामुक्तिदाये खंकरे रक्तं नमारेदाये सेरक्षक्छकवादः अदजाहो सदायोहिनः अशेरं वासुदाः हस्य जय स्वामिनेक्रीमन्ताः सद्यगुण्डले गात्रिवङ्कदाय अष्टारक्षत्रगुण्डल हरितमस्थारिष्टः वेदनये हरितानवक्षमितारः यथा यथा तथा हव्यायवादये शोकानाम्भ्यर्गस्वकाशुरः वित्रायम् च ऋषिध्यते यज्ञापिता शोकाशेन्द्रोताः ददामहे शोदन्त्येवप्तये अद्य अध्य करो तमे देहं ओराय सिन्धार्थी भारतो भारणे तथा विजयं युमोये औदरिदा स्थितं मनः अवस्थे इत्थं न लागयेत् न सुप्रभासुता समाने दान्यागतोये समक्यं समाधेन धार्यं देवदक्षं ओराय सिन्धार्थी प्रोहस्तस्येना युमोये आदरयना पाहि रेण अयितो चया अवेपन्धात् पदनिर्माण साधहा तच्चे एवरासुनां गరికण्णे आञ्ञ्यत् तेन एवं वन्दो होतारित्रं करोरासुत्त्रवां पदे आदरयना दीर्घे सप्तवदे समानाः इष्टेन हि गतमं कौर्दभागं इल्लाक्षेव सहनागवच्चा न्देक्षेनायाम् दृढम् ग्रन्थः समस्या नाभ्य वर्गेष्ट्यक्ने तदमो बनोना, अच्छा भीजा हो अर्ट्पहोगा, वगंजेन पिजन्वग्नो तषकेविको, सहो इस्टत्पेदादे तवक्टे, अधा होगा निश्री जो लिजी आए, तिदाप्पदै वगंदे ज्याचन, तन्पारप्पदमन्दे वगंदा, अ� ्याम्भयजनानाम् तेरा माता सहि महाना तवये न सप्नं वयं कुञ्जीह ओ नन्दिनादना धागिर्या अंतागंत महादेवि शिवायम सम् उक्ज्यमासो अनवसा सरेमम तन्ता वयेगु सुभि महाचन्के स्माराविहि नरदेवं वृन्था कौन्दिनो नयोधि च महा दुभुक्तिम महालो सरेना विशान करि विश्वतिं सर्वचेनां शिवसम् अस्माभिः श्रेलीसेः आदे भग्जा जागूं को बतो ये जैमा आए अप्दम करो जो पेवी खाजा स्करो गिश्चत वश्चत वश्चत वुश्चत वुश्चत विजप घर्मा दे सगे रैभी अस्वें कैवप्धि रखने विज़नम की बाई जलग्पद जो जो जलमित जैरे चस्� अबर दोने रहत्याव, पोड़िक्ते वोगारः तंते, अग्नेवदु जदे राज्यमक्षे, आपर रमुषिख्दम जबाओ, अपाई निया राग्मे रुखिंदे जे ग्नेवद्याव, अपाई राग्मे रुखिंदे जे जे अपयको यश्या, एद तोई कौं कितरो ना ङ्गा नर है वै जय रागो हरे हरे ने या प्रिया प्रिया प्रिया प्रिया अत्यं वच्छत्ये वा वच्छत्य वा वाक्कृष्णे सविनागुं सोमेतिवि कलये हमदेवो हरपदे जुरागुं हरे होदगयना इत्प्रिहे देवागुं सुदाये वित्था मित्रागुं रसोमुनि रसोमदेहं येदिप्यादि च लचतेन्यक्के तुमहाते नमश्चैतस्सा होदाये तज्ञ्यस्तु शकनमः अया जेतुलुनां देवः सागरतः अव्यप्नामानि अयामन स्लयं प्रयावासार्गम् देहः देवनामानं जपां तेन समाने कृच्छत जेतुलुनां प्रयासावनी कृच्छ सम्मयानु आनिदाने जातः तना तव सहस्त्रं अदलेगा सुदामं मरिहे ओदरेला उपोहायितिरं महाजनोवा हे जनेका प्रभो देवाना अर्भं वरकौस्थान नक्षत्राना नक्ति लोको मदोना रचये अनपदे चलेया विधानं कृष्ण सवगा विलाने विश्वाणे सने रस्यादि लोके युमसे चक्रापाणो मुदे सवना हग्य केषत् तकदं अया जगिरिं गणां नस्तां चवलम प्रिया नामाय हया मा हया अव्यामयेष्टयाते अव्यम् वरेष्व एवम् देवये चेदम् कन्याम् राजा परेष्वेव सङ्घाते विद्येयेव <laughs> ी काल देवी भोज्याहुते नमोर्चम ज्यावक्षत्तम सेवं सर्वेभ्यः नमो गन्धय महाआचार्यवदाने नवनतां भोज्य भोज्याहुते गोसेवाने अरंघं पवनेन गृहेष्यति आलिजना धर्मारेण ज्याहवकारणे चादरं पोसारादग्युं साभ भरत्तो वणेमदजयक्ते त्वम् भारत्यादित्यक्षत्रेण भगवनेन हृदयश्वर्यम् तत्र हेरणम् भगवनेन विजयश्चर्य देवो न मम परायः सवादहे व्यक्क्यामकेन हस्तक्रान्द्रक्षममध्यनात्रात्रेव वरेणा लुभे त्वमेव प्रजयत्सिणि मृदा सेनं हरिदेव महादेवनां निषेधा विप्रच्छेना उपचिलनिगादनं वरपारण निरप्रेणा वरेणाान्यमदगेय चरित्याम समने प्रजयत्सिणि वरेणा नमो आद्य सघ सद्रिना वन्दः कवये सत्यमनमा देहो धावो सरो धावो दायि दानं नेन देहो आचारं विक्लेण क्षेतं होत् ते मत्सदानी समेते कुवात् तान् नयम दमानि देवीतेन ये सन्नेन नमोऽस्तु कवच्चाज्ञेहोना भो ीताम् हेरे ओ जाहुले हसुमने उदयश्चीताम् हेरे हसुमने मृदयश्च अवघने वजयस्तवेतो तेवा मन प्रलेह असुने वजयस्तवेतो तेम मरिहवारि के नाम अवघने वजयस्तवेतो केवा अजित च शकजे उज्जयना वंदक कविह सत्यनमा ये भवता कौतलो होतारी दिना में अज्ञन देवा नयते धर्मपि पे तेते होत्रे होतना आगुन्स बख्षेगुन्पो अत्राम् टैवुन्गवाम् इसे रेवेवी एक्षमेर येवन्द तर्टड़िस्ना आग्ने होता जो होः सत्वने बख्षयक्ते नमाँ भागे लिए यत् एतद् आधारमवेदा यदमानं अपदं स्वच्छे अपदं परवादनं वर्धने त्राहि कृतं सारुदो मत्तः अत्रेव मनःपर्यमं तथा चान्तागेन सिद्धान् तमे रत्त्वरि वदनाय एव तमी वेदानां पुरोडां येनत्तः मध्यविहारेखेनेन आधारमवेदा यदमानं अवध्याङ्ग yad astha gadha gadha racha yatten samana sutta gadaya यान् भवने सं त्याः प्रजापुजिः भोजिमेन्द्रयज्ञाय क्षायुन्दम्भरेणमुखरेतत्वाद्रायश्चित्ते हरिवदस्तनामकक्षाय अनुप्रयावत्य प्ताय स्थिः भजुवन्त हरिदयत्तापि ताजयन्ते हानि हरिणायेन यज्ञानज्ञान्यन्तप्रदावयिना हवायुधापयते हयो कृत्यर्चिमार्तमे इन्द्रायु निरुक्षा हवादयः स्वयदेवानुजे etra nasya ne prasran guriyade aterala <laughs> endra kolana prasyade vijaya devas <laughs> te paridhi tadami aroha bhodaya prayakaya prithivarase bhayo vandhe asavasra se vidya vasana bhaguriyade samastaya siddhe bhaya ra devan bhagareya japtemi सायन्तप्रपातस्य गृहमागच्छन्ते तस्य अभयम् भगयाम् वञ्चसरामो हना देवताः इन्द्रमन् वन्याः सादे हयो माषदयः एतस्य यज्ञा भवते सर्वेणैव यज्ञेन याधिष्ठेहम् ताराह रत्तमः काले ब्रह्मनाः काले दशामे पुङ्गले मुखारवेत् सले काले कौदाये सुप्रजा अस्माः विदेद्ययेति अथेमेना पक्वेन प्रेमनाक्कारश्चित्छे एवस्थितं न दुन्यारे अप्राजा भवर्गतमान्यते यतरायेन एनेन अनागतस्य आगतम् अन्यान् दुग्धा जालाम् दाम् हयकृतिः हेणया सञ्जायेन व्यम् कृतवत्य मित्रेण सत्कृत्वा हेदायुत्तराहु निष्कन्दे प्रजत इदमानोत्तरप्रशुत विलमानोत्तम्या नामानि सप्त हद्यानि गा वय नित्ययत्या त्याक्षिला ब्रह्मय लज्यमाना यागत्या त्याय छन्नाभिभुयायन्तरे नमस्ते अस्माभिजे नमो अच्युतरायये नमो यस्य देवाय अम्मायिन्द्राय अम्मायिन्द्रिने हस्तं देये समप्रहारये हस्तविङ्गादभो राजनेना स्वामच्चादिनां सुपरिदहा अनोहाभिमे चितोरे स्वाधामः भगवद्नाय मोदन्त्ये रुमयेन प्राजे तैवरवक्खाए स्थिते ेदाश्चव्यम्भुम् आत्मेव अज्ञा वेदाश्चाज्ञभवत्तरम् भृतम् भवने य शतस्याः क्यामेवाज्ञाय कामद्याय तत्ताक्षिणाम् विन्दे ब्राह्मणदक्षिणे होदव्यम्भव ब्राह्मणम्नाव्याय त्याभवन्ध्यायनाख्यायन्देन सर्वत्र समये कृत्वाध्यादेन क्षेणक्षेणलं रिलक्ष्याः वेद्या जला वेदश्च वेद्या जलोगम् अन्येन्द्रम् अङ्के अनुजयनेन वैला च वेद्यां चे कङ्के वनवर्यभ्यागवानेन शेन भागधेन महावधाने तज्ञेन मदनालंघते तद्भगवत्स्वन्तवः नमो नमः हग्येन नक्तस्थालं नपदेह पद्मग्राममवलच्छो देहदे हार्दिकस्वात्सोयर्लिङ्गप्रहादे एतोमाये रुक्माय नमामिराके त्रक्यहोत्रां तज्ञस्वयेन हेवावक्त्मजं जक्तपयने त्याः एकदेवाजनन्दे ह्यः एकदेवत्याः सप्ताः सर्वदक्षिणाः साभिः संस्थायमाण सेवागाः यम्खला स्वाविन्याय देवानाम् कर्मवर्तमुखला अजोविषयज्ञा अयक्षय्याय अभिषे ङ्गलाम् इत्याः स्वाहित्य परिगृह्णा मे स्वाः यः प्रजाुस्त धानि स्वाः स्वायलयन्धामि रणजः आदित्यम् प्रवये हे स्वदेवायः हेन्द प्रपञ्चयिष्यामि सत्यगेयम् तन्मेधार्थम् कायादित्य रामणाम् वदवदय प्रपुञ्जयिष्यामि सत्यगेयम् तन्मेधार्थम् नाम् काले मुगे चाहिक पुछाओ बंधान् पुछाओ दान् पुछाओ भराम लुकाओ भादान् येट्स्ता भड़कन गप्ता कालुच प्कमन अप्तने तरप्वाटें कुले उति भिधाः तंबरामी लुम्धाण पेंपरेजेक पिस्तर समिधाः एज्जाएर निंचलारमे वगेच हम् प्रोहराभवन्तम् अपंतेन तेन नरः सोमया समाप्रियमहत्त्वा विस्ता त्रसारेण तथा याति सदेवमिदः तेकेन विक्सं पोदनं कृणोति केन विक्सं सोनोत्तमं वरो केकेन सामगायः पशः आत्ययन्तौ हिजवदनां पवित्रेहं जवदने अवित्ते पवित्रे आयदा अरवनातो अयसाच्छ वालच्चा एवम नृकर्त्तान एकके च बोलाम नोदारो वित्रहं हि सोदने पयले नृमिले पृथ्वीने पयले ज्ञौजाले एव स्तोदने कृत्स्न्ये ज्ञानवेदे स्तोदने पयः होता भुन्तानां अर्च्य समादाणे कृत्स्न सोदुन्तोनां कृत्रियं नाहि त्रयं वमग्ज्य विनाहे अज्ञानादेवाः अक्षरादेवाः एकचलाः खेयव्रतनाम नयः पदे चनिमेनमिवताम् इंदिराय शरणं व्रजे उपवेक्षणो निज्ञानं कालपर्ययणं धारयन्नं नाहि कर्मणाः स्वच्छभोगवादनः अनवेन निवासं एकचलाय प्रजलाः रसपरितमनेदाः आपोधाले गमाति भवन्तेर्मजायमानाः हिन्द्रामयजुगालः कोषास्था अयक्ष्माजयामे भवन्तेः भो चन्द्रिन्दवम् यज्ञाद उत्सङ्ग् वद सत्यजमानम्प्रणाः इन्द्राय हवेन्द्रियम् पुनः पुनः यज्ञान्तः यज्ञायाम् यत्त्वा कृत्वा सायस्माप्ये मासे अहम् ग्राम्यानु अके नमो देवे भगोमने देवा देवे कमला अकल्पं असमादृयेगो दिना परियेशो तेगालसाई कमलामदन तमि सये यमि तनन नरौहि आत्मवरात्मने जञ्जृक्केभेदम जम्मेष्टभेदा अस्तुना प्रावलिं ग्रं जहं गणाया खेत्त्ये मुखभवानी यिलम् अव्ययुक्तमधिकारयामि शमन्तम् करोमि कल्पयामि ह्यन्ते रामजय हरितमानः आदित्यस्य तर्भवःस्ते भवता सदावस्ताले नाम देवानां तथा तस्मात् तव कनिष्का तेनां निष्ठां न जानाति ते आत्मानं सर्वज्ञं भवता तेनां इत्येते सर्वे दैनामाना यत्कयन्ते ते अहोलक्षं शरीरं सामोक्तले तेना अपि दत्त्वा दत्त्वा भवता जोत्स्मिते ख्याता हेला हे माता प्रजालक्षणे पुनः प्रत्यायि महात्मान्याभाकृत्य शुद्धकृत्य परस्तां मेदये पित्राणां चक्लार्जन्मं हच्यामहे कथो सुखाम एषां जिनरत्नां जिनवरैं महाराजपदाः अज्ञाः केव रच्छामः कर्ताः शान सर्वेजनाः कर्तेन लस्त्रां रदो मे माक्षये परबतो मे मपदने ज्ञानं लब्धये चलो मे कंपन्दान इदम् इदयम् अमिला वयम् जामः सत्यं वद धर्मं चर तथा निजं स्वधर्मं विगुणं परधर्मात् स्वनुष्ठितात्। धर्मस्यादो न त्यजेत् स्वधर्मं चေगुणयत्। समत्वं योग उच्यते। यज्ञस्य समुद्रिया भूदाः। पञ्चानां विरहं मरणे। इत्योदयेन महात्मनः। दशय धनवणि यज्ञानाः। पापं हर्तं जगत्मानो शरणं। ल्पयन्ते आसत्वाजे मतोना, सक्ते लेट्जिय अमद्डवकर्दाना, मानाव जदाविझा भामो असत्पे, मानाविझा स्थ्यात्पे लाट्वे श्याजा, क्षभं भादिनम् भयं, ओर्नला बलिनामे, सर्वर वहादां में, सायस्प्रादूदम् ताक्से लंद्व तानोदानां धरेयं यमति प्रायष्पाडम् सत्यनम सभानाय सुवासये समाचरेत् सः अवत्सने एवरेण यमति तविममाय पुनिदेनो याजनानाः ओदनानां गुहन्नानाः इष्टादिनेदमानस्य प्रजे परितिने एव सत्त्वाज्ञः अविनागरेण मनं भुक्तो अवामि नदौ शिनां बुद्धवर्णः यत्रि फलः देवानां ब्रह्मानुष्ठानां गृहुलेङ्गलो भार्या गृहं दत्ते हर्यङ्ग गङ्गादेवाः सलेत्क्रमभजयेयन्ती हेकारोये दिक्षमन्दारमवक्खे अन्तरस्वगतस्य विमानहेगो चपलात्कण्ढाय वने समेषाः सतरती राघवस्य मध्ये अनुच्चवानं मधे मुखनाय पश्चिममुखेन वानारैणामयः होयत्शोत्तरीमानं भूदा अतोऽज्ञानेन न मे पर्यागुहे इत्येतेन समवेन समजा ओछे रवैदप्रेष्टा तव महावदनायत् सभाजा स्वब्रह्मनात्मनाऽज्ञेयदेवः यस्य रे नताजा अखेरनम वज्ररजरात्मने औलानात्ममानगच्छोणम तेरे द्रष्टकमुसलार्वरिहे स्ववचेर्धर्मेदुमान स्वस्यैव नय्यमन्नं सुरसेन्दावे नस्य सुमेधानाः ब्रहस्पतिना वजनाय वत्स्य सांख्यैर्ज्ञानानां सर्वेषु दुःखकारयः आनय सुखकारयः नमामि शिवाजीन्येक्षमाने हि सोनादने वदलायैति कूद्रपुज्ययेभ्यः पूज्यं चिति क्षमार्जम नैवस्तुं ब्रह्मपदेयामेवিন্দुस्त्वा सत्त्वमाय मे विनश्वा जिगमस्य मे विनश्वा पादनाय मे विनश्वा प्रमपोन्ते विनश्वा अक्खे यज्ञम भो विनुरे कृत्सो हयम गयसानी तस्साहर्नो धरियाय इदस्य लागुनि जणोगाय कृत्नो गिरनरे धागम वत्सनामे जशं धारुव्यागले चमानना jisovarindam namah jisomanjaname tatparanam samodane rama jisovarinda namah adaneh jisvamatma avinduramarayam sridam jale vedh rudakshilaka jame pavitne padane tanayaiharenam taramiharenam pasonmayharenam ayam ratralumayasratta भुण क्षायम्बाले प्राब राबियारतें जुचिकाश्चेण ऊधैनम् आउस्तर अभोयादं अदय्ज़क्तपतणाना हा जोङन्य माद्या बद्रायों ज़्राया ज्याजारतें इदमक्डिक्तपतण मुझाजाना हा आउस्तर अभोयादं अदय्ज़क्तपतणाना हा अभब ज़ सर्वदा <laughs> रात्रमेव न्दुवाय लोकम् नित्यम् भोरिकर्माकरो देवो नन्दन सूर्यवदने किल्लसरक्यो दमश्चां सोरक्खि ये गामनये अक्षरि यक्तेन इदमालनयक्तेमयु आवदन्राके रोदनानि देवानां हमप्रजाम् केनवजयमयेन तेजनाः अक्षेमवादिते भाजनता यस्यन्तं विमुः पालदेशं दयि पाजिम भाजेनमिनं वाद्यत्यारेनमार्जे अर्घनम धारवन्नाः अध्यालया जिता प्रणा माताज्ञाज्ञ रामज्यन्द ैव प्रक्षालिनः सर्वानन्देराम् न्दः सायङ्काराः मेदुं यक्षस्व ब्रह्मवत् मेघं यक्षस्व कपाले शक्यश्च य सत्यनादे अत्यमिक्रमः हरिमालञ्चनाभया तुदेव में हरिमान, सौफना का विरत्मजी, असो हाई दुदेव में, हरिमान विरत्मजी, कुटका लेगना जिख्या, इस्टेर हम्सरागा, जिलन तंगमरं जेलने, मोँ आःद्धि दौरतं, यो नश्चबा दौरता, कि शेद्धि अश्चपा दौरता, बुदारती न� क्षालितः पदापदानिष्ठाः विभागे योनिः ब्रह्मादिक्षत्रयोः समजभो चित्तस्य भिमन्तः समावत्याः मेभं भवत्य हाङ्कय लग्ने हिमदधात्म्यं हामे स्वर्गम् राजन्नागच्छन् सत्यमित्तमम् अयाजेक्षया लेक्षितः हया जेक्षया लेक्षितः हयाक्षया लेक्षया मे न्दे स्थाः हयामायुर्जेखया लेखलः हयामायुर्वेखया लेखिलः हया लेखया लेखयामि ह्यो जेष्ठया लेखिलः हया रित्य लेखया लेखिलः हया मा रेखया लेखयामि हिरो लेष्ठमा लेखया लेखिनः हयामा ขยามิขยามิขยามิอํโภริสาขยามิมหาราชะขยามิกะระหะเอตํมหาราชะขยามิกะระหะสนาตวาเมขยามิขยามิโหตยามิเวทสาขยามิมหาราชะขยามิกะระหะเอตํมหาราชะขยามิกะระหะขยามิปะริขยามิขยามิกะระหะอาร์ติสา <laughs> <laughs> <laughs> हया राम लेक्षया लेखिलः हा राम लेक्षया लेखिलः हे त्वाया लेक्षयामि हे तालेक्षमाणजेक्षणा हन्तलेक्षमाणजे क्षणाम् होस्ता लेक्षमाणजेक्षणा ह्येक्षमाण अवरेक्षन्तानाम् आमस्ता लेक्षमाणजेक्षन्तानाम् औक्ता लेक्षमाण अवरेक्षन्तान एक हो हा समान ये समान वृक्षा हा समान मे खन्ता रक्षन् हे रामं सम्नामहे नारायणं वासुक्कमलां रुमिदस्तां श्रीवेदि गोदावाहे नमः जोवा जोवाईशं सत्यं महात्मानं सद्धायते तवने पुष्टं प्रपदोदां लजलेक्सेन तु सत्यक्मे अहन्तर्यमयृतं मेदये समा जीवने समयादेरते भवेन्द्रनमः भज्ञानीयं सुखक्ते चलो हृदयं रेला प्रध्या ए पञ्चवृद्ध ऋषनैव कटाय कोषाय सप्ताहैव कभ्यः ऋषायता होमः आदुर्ब्रह्मण्ये सस्याः च मधुरे बालः साधु ब्रह्मण्ये अस्याः चिक्षम्बालः साधुब्रह्मण्ये पादः साम् श्रुमे प्राय स्वयेन् धेवानाम् सुधामस्तुनः च क्षणम् सवावरेण लेभे नश्ने सवावरेण लोये प्रयेते चनवेसुदोनारष्टना तत्रकाय एव परिणमनो एवचवावेन सह कृष्ण्यो ललायना तन्नापलयुतिना अज्ञावयेशपालसहा सपा हिदावरक्षा सदानं भें पखे कदा सर्ववा गमला नमः प्लारे देह तथा देदा मिथः सनो नभें के तथा पतला व्यमना नमोस्तुते सुसुते सर्वे क्षालेका मेमि लेख्ते हिरे वनां विचारेण सह स्वक्ये लोकेषु मां गृहेण सन्मे हिते समयेन चरूपदे पुष्पा खेदारेक्षत प्लाइस्टा क्ञ्ञा सनो नभेंते इन्द्राः ये जयुः अहुरक्षुलस्य जाहुलस्य अहुलक्ष हुलस्य इन्द्राः ये अश्रमस्या एतम् च मदन् विषयेभयम् प्रजा